उत दानीं भगवन्दस्यामोदप्रपित्व उ॒त मध्ये अह्नाम् उतोदितामघवन्थसूयस्य देवानां सुमतौ उत दानीं भगवन्तस्यामोदप्रपित्व उ॒त मध्ये अह्नाम् उतोदितामघवन्थसूयस्य देवानां सुमतौ उत दानीं भगवन्दस्यामोदप्रपित्व उ॒त मध्ये अह्नाम् उतोदितामघवन्थसूयस्य देवानां सुमतौ